नारदपुराणं पूर्वार्थम् अध्यायं सिक्स्टि टु सूत उवाच एतच्छ्रुत्वादुवचनं नारदो भगवान् ऋषिः पुनः पप्रचतं विप्रशुकाभिपदनं मुनिं नारद उवाच भगवन् सर्वमाख्यातं त्वयादि करुणात्मना यत्रुत्वा मानसमेद्य शान्तिमग्रामुपागतं पुनश्च मोक्षशास्त्रमे त्वमादिशमहामुने न हि सम्पूर्णदा मेदि तृष्णा कृष्णगुणार्णवे ये तु संसारनिर्मुक्तमोक्षशास्त्रपरायणाः पुत्रते ते निवसन्तीक संशयो मे महानयं तं चिन्धिसुमहाभागत्वत्तो नान्यो विदाम्बरः सनमुवाच दारयामास चात्मानं यथा शास्त्रं महामुनिः पादात् प्रभृति कात्रे सुक्रमेण क्रमयोगविद तदत्स प्राङ्मुखो विद्वानादित्येन विरोचिते पाणिपादं समाधाय विनीतवदुपाविशद न तत्र पक्षिसङ्घादो न शब्दो न च दर्शनं यत्र वैया स किर्धाम्नि योक्तुम् समुपचक्रमे सददर्श तदात्मानं सर्वसङ्गविनिसृतः प्रजहास तदोहासं सुखसम्प्रेक्ष्य भास्करं स पुनर्योगमास्थाय मोक्षमार्गोपलभये महायोगीश्वरो भूत्वा सोऽ त्यक्रामद्विहायसम् अं तरीक्षचरश्रीमान्व्यासपुत्रः सुनिश्चितः तमुद्यं तं द्विजश्रेष्ठं वैनतेयसमु समद्युदिं ददृश्योः सर्वभोधानि मनो मारुद यथा धान्यायं पूजयां चक्रिरे तथा पुष्पवर्षैश्च दिव्यैस्तामा वा चक्रोर्दिवौकसः तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वासरसां गणाः ऋषयशैव संसिद्धा कोऽयं सिद्धिमुपागतः तदोऽसौ स्वाश्रयं तेभ्यः कथयामास नारद उवाच च महातेजास्तान् ऋषीन् सम्प्रहर्षिदः पिता यद्यनु गच्छेन्मां प्रोच मा नः वै तस्मै प्रति वचो देयं भवेद्भिस्तु समाहितैः बाण्डमुक्तस्ततस्तैस्तु लोकान् हित्वा चतुर्विधान् तमोह्यष्टविधं त्यक्त्वा जहौ पञ्चविधं रजः जाह। तदसत्वं जहौ धीमां तदद्भुतमिवाभवत् ततस्तस्मिन् पदे नित्यनिर्गुणे लिङ्गपूजिते ततः स श्रृङ्गे प्रदिमे हिमवन्मेरुसन्निभे संश्लिष्टेष्वेदभिरेज रुक्मरूप्य मये शुभे सदयोजनविस्तारे ते या गोधचनारत सो विषमकेन मनसा तथैवाभ्यपदच्छुकः ते श्रृङ्गेत्यम्द संश्लिष्टे सहसैव द्विधा कृते आदृश्येदा द्विजश्रेष्ठतदद्भुतमिवाभवत् तदपर्वतशृङ्गाभ्यां सहसैव विनिसृतः न च प्रतिजघानस्य सगदिं पर्वतोत्तमः ततो मदागिनीं दिव्यामुपरिष्टादभिव्रजन् शुको ददर्शधर्मात्मा पुष्पितद्रुमकाननं तस्यां क्रीडा सुनिरदास्नादिचैवाप्सरोगणः निरकारं तु साकारददृशुस्तं विभाससहा तं प्रक्रमं तमाज्ञायपिता स्नेहसमन्वितः उत्तमाम् गतिमास्ताय पृष्ठतोनुससारः शुकस्तु मारुदा दूर्ध्वं गतिं कृत्वा तरिक्षगान् दरिचयित्वा प्रभावं स्वं सर्वभूतो भव तदा अधयो गगतिं व्याससमास्ताय महातपः निमे शान्तरमात्रेण शुकाभिपतनं ययौ सदधर्शद्विधा कृत्वा पर्वताग्रं गदं शुकं शस्यं सुर्मुनयसिद्धा गतिं तस्मै सुदस्यतां तद् शुकेतिशब्देन दीर्घेण क्रन्दितं तदाः स्वयं पित्रा स्वरेणो स्त्रीम् लोकाननुनाद्य वै शुकः सर्वगतिर्भूत्वा सर्वात्मा सर्वतो मुखः प्रत्यभाषतधर्मात्मा भोः शब्देनानुनादयन् तदैकाक्षरं नादं भोरित्येवमुदीरयन् प्रत्याहरजगत् सर्वमुञ्जैष्ठावरजङ्गमम् ततप्रभृदि वाद्याभिशाब्दानुजारितान् पृथगिरिगह्वरपृष्ठेषु व्याजहारशुकं प्रति अन्तर्हितप्रभावं तं दर्शयित्वा शुकस्तदा गुणान् संत्यज्य सत्वादीन् पदमध्यगमत्परं महिमानं तु तं दृष्ट्वा पुत्रस्यामिदते च सो नु नीतो भगवदव्यासो रुद्रेण नारद किमुं ताम्यसि मुने पुत्रं प्रदि समाकुलः पश्यसि विप्र नायान्तं ग्रह्यभूतं निजान्दिरे इत्येवमनुनीतोस व्यास पुनरुप्राव्रजेत् श्वाश्रमं सशुको ब्रह्मभूतो लोकांश्चतारः तदकालान्तरे ब्रह्मन् व्यासत्यवधिसुधः नरनारायणौ द्रष्टुं ययौ बदरीकाश्रमं तत्र दृष्ट्वा तुतौ देवौ तप्यमानो महत्तवः स्वयं च तत्र तपसि स्थितः सुखमनुस्मरन् यावत्तत्र स्थितो व्यासशुकः परमयोगविदस्वेदद्वीपं गदस्ताद यत्र त्वमगमः पुरा तत्र दृष्टप्रभावस्तु श्रीमान्नारायणप्रभुः दृष्टश्रुति विमृग्यो हि देवदेवो जनार्दनः स्तुतश्च सुखदेवेन प्रसन्नप्राह नारद श्रीभगवानुवाच त्वया दृष्टोऽस्मि योगीन्द्र सर्वदेवरहस्थितः सनत्कुमाराधिष्ठेन सिद्धो योगेन वाडव त्वं सदा मार्गस्तो लोगान् पश्य यथेच्छया इत्युक्तो वासुदेवेन तं संभवः वैकुण्ठं प्रययौ विप्रसर्वलोकनमस्कृतं वैमानिकैसुरैर्जुष्टं विरजापरिचेष्टितं यं भान्दमनुभाेदे लोका सर्वेऽपि नारद यत्र विदुमः सोपानस्वर्णरत्नविचित्रिता कवाप्य उत्पलसंच्छन्ना सुरस्त्री कुष्ठा दिव्यैर्हंसकुलैर्घुष्ठ निभृदा सदा तत्र द्वास्तैश्चतुर्हस्ते नार्नाभरणभूषितैः विश्वक्सेनानुगसिद्धैः कुमुदाद्यैरवारितः प्रविश्याभ्यां तरं तत्र देवदेवं चतुर्भुजम् शान्तं प्रसन्नवदनं पीतकौशेयवाससं शङ्खचक्रगदा पद्मैर्मूर्तिमद्भिरुपासितं वक्षस्थलस्थया लक्ष्म्या कौस्तुभेन विराजितं कडिसूत्रब्रह्मसूत्रकटकाङ्गदभूषितं भ्राजत्किरीडवलयं मणिनूपुरशोभिदं ददर्श सिद्धनिकरैः सेव्यमानमहर्निशं तं दृष्ट्वा भक्तिभावेन तुष्टाव मधुसूदनं सुक उवाच नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने हरे वासुकिष्टाय श्वेदद्वीपनिवासिने हंसायमस्यरूपाय वाराहतनुधारिणे नृसिंहाय ध्रुवेद्याय सांख्ययोगेश्वराय च चतुःसनाय कूमाय पृथवे स्वसुरवात्मने नाभेयाय जगदात्रे विधात्रेन्द्रकारय कारयच भार्गवेन्द्राय रामाय राघवाय पराय च कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे चतुर्व्यूहाय वेद्याय ध्येयाय परमात्मने नरनारायणाख्याय शिशिविष्ठाय विष्णवे हृदधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ऋभवे सुव्रताख्याय सुधाम्ने चाञ्जिताय च विश्वरूपाय विश्वाय सृष्टिसित्यन्धकारिणे यज्ञाय यज्ञभोक्ते यत्या च स्तविष्ठाय नवेर्धिने आदित्य सोमनेत्राय सह ओजो बलाय च ईज्याय साक्षिणेजाय बहुशीर्षाङ्घ्रिबाहवे श्रीशाय श्रीनिवासाय भक्तवश्याय चार्गिणे अष्टप्रकृत्यधीशाय ब्रह्मणे नन्दशक्रये बृपदारण्यवेद्याय हृषिकेशाय वेधसे कुण्डलीकनिभाक्षाय क्षेत्रज्ञाय विभाविने गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने सत्याय सत्यसन्धाय वैकुण्ठाय च्युताय अथोक्षजाय धर्माय वामनाय त्रिधाधवे घृतार्चिषे विष्णवेदे नन्दाय कपिलाय च विजिञ्चये त्रिकुदे ऋग्यजुस्सामरूपिणे एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये वृषा कपयर् य प्रभवे विश्वकर्मणे भूर्भुवः स्वस्वरूपाय दैत्यग्ने निर्गुणाय च निरञ्जनाय नित्याय ह्यव्ययायक्षराय च नमस्ते पाहि माहीशरणागदवत्सल इति स्तु दस्स भगवाञ्छचक्रगदाधरः आरणेयमुवाचेदं भृष्यं प्रणदवत्सलः श्रीभगवानुवाच व्यासपुत्र महाभागप्रीतोऽस्मि तव सुव्रद विद्यामाप्नुहिभक्तिं च ज्ञानी त्वं मम रूपधृक यद्रूपं मम दृष्टं प्राक्ष्वेदद्वीपे त्वया द्विज सोऽमेवावतारास्थं स्थितो विश्वंभरात्मकः सिद्धोऽश्चित्त्वमहाभागमोक्षधर्मानुचिन्तया वरलोकन्यथा वायुर्यथा रवं सविदा तथा नित्यमुक्तस्वरूपस्त्वं पूज्यमानसुरैर्नरैः भक्तिर्हि दुर्लभालोके मयि सर्वपरायणे तां लब्ध्वा न परं किञ्चित् लब्धव्यमवशिष्यते आकल्पान्तस्तपःसंस्तौ नरनारायणा वृषी तयो निदेश्यदो व्यासो जनकस्तव सुव्रदः कर्ता भागवतं शास्त्रं तदधिष्व भुवं व्रज स तप्यदि तपस्त्वद्य पर्वदे गन्धमादने त्वदि योगेन खिनात्मा प्रसादय मत्प्रीत्यम् एवमुक्त शु गोविप्रनमस्कृत्य चतुर्भुजं ग यथा गतं निवृतोऽसौ पितुरन्तिगमागमत अधं स्वन्तिके दृष्ट्वा पराशर्य प्रदापवान् पुत्रं प्राप्य प्रहृष्टात्मा तपसो निववर्तः नारायणं नमस्कृत्य नरं चैव नरोत्तमं आरणेय समायुक्तस्वाश्रमं समुपागमद नारायणनियोगात्तु त्वन्मुखेन मुनीश्वर सकार संहितां दिव्यां नानाख्यानसमन्वितां वेदतुल्यां भागवतीं हरिभक्तिविवर्धिनीं निवर्तिनिरदं पुत्रं सुखम् अध्यापयञ्च ताम् आत्मा रामोऽपि भगवान् पाराश्चर्यात्मजसुकः अधीतवान् संकीतां वैनित्यं विष्णुजनप्रियां समाख्यादा मोक्ष भक्ति सामख्याद मोक्षधर्मास्तव था पठत्म शृणवता चा हरिभक्तिवर्धना बृहदीयुराणे पूर्वभागेय पदे बृहदुप मोक्षधर्मनिरूपणं नाम द्विषष्टितमोऽध्यायः समाप्तस्थायं द्वितीयः पादः